मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं फिफ्टीन् देवागारद्वारयात्रामाहात्म्यवर्णनं श्रीगणेशाय नमः युवाच, देवालयस्य द्वाराणि चत्वारि कथितानि च तेषां चरित्रकं देवा कथयामि सुसेविना बभुवशूद्रजाधिस्थो गुर्जरे मानवखलः नाम्ना शम्भुरिधिख्यादो द्रव्ययुक्तः सुहृत्प्रियः स सायाह्ने जगामैव किञ्चित् कार्यार्थमादराद ग्रामाद् बहिश्च तत्रापि प्रेतैः संवेष्टितो भवद दृष्ट्वा प्रेदान्महोग्रान् स भयभीदो बभूवः तदस्तं विविशुः सर्वे प्रेदाः परमदारुणाः तत्रैव पदिदशुद्रस्तदर्थं सुहृदस्तदः समाययुस्तं सङ्गृह्य स्वगृहं प्रययुकलं तदपिशाचतुल्यस्य विचचारमहीतलं तदर्थं सुहृद सर्वे भवन् यत्नपरायणाः तथापि तं महाप्रेदा मुमुचूर्णकदाचन तत्तत्क्षेत्राणि तीर्थानि बभ्रमुस्तेन संयुताः तदपि प्रेतराजस्थं मुमुचूर्नप्रतापदः सुहृदस्तेन संयुक्ता महत्क्षेत्रं समाययुः मयूरेशं समभ्यर्च्य शम्भुं गृह्य सुहृद्जनाः जग्मुस्ते भैरवं देवं नग्नरूपधरं परं दर्शनेन महेशानाभैरवस्य महात्मनः प्रेतास्त्यक्वा ययुः सर्वे शम्भुं भीदानसंशयः स्वस्थप्रकृतिगं दृष्ट्वा विस्मिताः सुहृदोऽखिलाः पुनर्विघ्नेशमापूज्य ययुस्वनगरं तदः नग्नभैरवदेवस्य दर्शनेन महेश्वराः पिशाचप्रेददोषेभ्यो मुक्तः सञ्जाय दे नरः ग्रहभूतादिजानाना पीडा दोषा भवन्ति न नग्न भैरव नग्नभैरवदर्शनाद नानाजना महाक्षेत्रे तं प्रणम्य विधानदः यात्रा मात्रण दोषैश्च बभूवुर्वर्जिताः पुरा न शक्यते तत्र मया वर्षशतैरपि सङ्क्षेपेण ततो देहाकथितं तस्य चेष्टितम् अध चरित्रं कथयामि वः तत्र देवेश्वरः साक्षात् नीलकण्ठस्थितो भवत गणेशानां समाराध्य पपौ विषं समुद्रजं महोग्रं शङ्करो देवः सर्वभस्मकरं परं यस्य स्पर्शेन विष्णुश्च श्यामरूपो बभूवः विषयुक्तः पपातासौ गर्वयुक्तप्रभावतः गणेशस्मरणं कृत्वा विषहीनो बभूवः महाविष्णुशिवेनैवोपदिष्टः परवीरहा गणेशकृपया तत्तु विषम्पीदं महात्मना शङ्करेण तदोदाः संयुक्तः स बभूवः मयूरेशे दिसंस्मृत्य दासहीनो बभूवः सकृच्छीदलदेहसमयूरेशं समाययौ तत्रैव संस्थितसोऽपि नीलकण्ठो महेश्वरः सेवार्थं गणराजस्य धाराधीशो बभूवः तं प्रणम्य जनाः सर्वे विषहीना भवन्ति इतिहासं वदाम्यत्र शृणुध्वं परमेश्वराः दण्डकारण्यदेशस्थः कश्चित्तु भवद सुलोचन इदिक्यादो ख्यातो नानाशास्त्रविशारदः तेन भूतेन राजानो श्रुता वै निस्तेजसः पुनस्तं शरणं जग्मुरादृताः तमुग्रदण्डकर्तारं ज्ञात्वा सर्वे नृपास्ततः विषबाधां ददुस्तस्मै किञ्चिच्छत्मबलेन वै स्वयं व्याकुलचित्तः सञ्ज्ञात्वा विषभवां व्यथाम् स जगाममयूरेशं प्रधानायस्तत्क्षणान्नृपः उद्देशेन गणेशस्य महद्विषं महेश्वराः स्तम्भिदं सतदो तदो राजाक्षेत्रे समागदो भवत तावद्विषेण भूपालः पीडितोदितरां किल देहचेष्टाविहीनः स बभुवे देवसन्निधौ प्रधानास्तं प्रगृह्यैव यात्रां चक्रु यथाविधिं देवालयस्य द्वारस्थां दक्षिणे नीलकण्डजाम् नीलकण्ठं प्रपूज्यैव तस्य तीर्थं स्वमस्तके राजा वन्द्यमहेशानं विषहीनो बभूवः तदो विघ्नेश्वरं राजा पूज्य स्वस्थानगो भवद् सुलोचनशशासैव धरां सन्दण्ड्यदुर्जनान् एवं यात्राविधानेन विषहीनो नराधिपः नीलकण्ठसमायुक्तं गणेशमभजत्परम् अन्धे कैलासगो राजा बुभुजे विविधं सुखं पुनश्च ब्राह्मणो जातः क्षेत्रे मायूरसंज्ञिदे तत्रैव गणराजं सदा भक्तिः परायणः अभजद्धर्मशीलश्च नाम्नाख्यादो महेश्वराः एव मन्दे जगामासौ गणपं परं ब्राह्मणो ब्रह्मभूतो वै बभूव परमद्युधिः एवं नानाजनास्तत्र नीलकण्ठम् प्रदृश्य वै सिद्धिम् प्राप्ता महेशाना मया वक्तुम् न शक्यते अधुना पश्चिमद्वारसंस्थम् माहात्म्यमुत्तमम् कथयामि महेशाना देवागारस्य सिद्धिदम् महिषासुरपुत्रश्च बभूवः गजासुरः तेन त्रैलोक्यगं सर्वं पीडितं सचराचरम् अजेयत्सर्वभूतानां महाबलयुतोऽसुरः कर्मखण्डनभावेनापीडयत् सकलामरान् ततश्च शोकसंयुक्तो शङ्करश्च मयूरगः पूजयामास विघ्नेशं तदो दैत्यं जखानः तदह क्षेत्रं समाश्रित्य संस्थितः पार्वतीपदिः गणेशेन कृतः सोऽपि द्वाराधीशो महेश्वरः कृति वासा स्वयं शम्भुर्देवागारस्य मानदः पश्चिमद्वार संस्थोभूत् भजतां भावपूरकः अत्रेदिहासं मुख्यं यत् सङ्क्षेपेण वदाम्यहं शृणुध्वं सर्वपापघ्नं गणेशे भक् कृदायकम् आन्ध्रदेशे द्विज कश्चित् पापकर्मपरायणः असुरम् धर्ममाश्रित्य दुर्विनीदो बभूवः तदर्थम् सुहृदः सर्वे नानायत्नपरायणाः हृदिस्थम् राक्षसं वारयितुम् चेकुर्नदे कदा तदा ये तपस्विनं तेनैव कथितः सर्ववृत्तान्तो द्विजसम्भवः तपस्वी उवाच मलं त्यक्त्वा द्विजश्चायमकरोन्न कदा शौचभ्रमयुतस्तत्र राक्षसः पिङ्गलो ययौ अपवित्रम् द्विजम् दृष्ट्वा ससारहृदि राक्षसः नित्यमादराद अधः मयूरे वैकृति वासोद्धरम् गदः द्वारयात्राविधानेन पूजयद्धुवमनेन तु तेनायं राक्षसो मुक्तो भविष्यदिन संशयः नान्यथायुधवर्षैश्च समीचीनः तदस्ते कर्षिदा सर्वे तं गृह्यक्षेत्रमाययुः देवागारस्य यात्रां ते चकृ पश्चिमद्वारगां कृत्तिवासमभ्यर्थ्य द्विजः रक्षोहीनो बभूवापि स्वधर्म ततः स्वगृहमागत्य गणेशमभजद्विजः कृतिवासः समायोक्तमन्ते कैलासगो भवत पुनः स ब्राह्मणो भूत्वा मयूरेशं समाश्रितः क्षेत्रसंज्ञास भावेन भजत्तम् नित्यमादराद अन्ते गणपतौ सोऽपि ब्रह्मभूतो बभूवः एवं पश्चिमद्वारस्य माहात्म्यं कथितं मया नानाजनामहेशानाः पश्चिमद्वारकारिणः रक्षोभावविहीनाश्च बभूवुर्नात्र अधः परं प्रवक्ष्यामि देवागारस्य देवपाः उत्तरद्वारसंयुक्तं चरित्रं सर्वकामदम् राक्षस्यां कुम्भकर्णा तु बभूवे राक्षसाधिपः भीमः सर्वत्र शैवस्य तेन शैवा धृता केजित् पुरा केजित् संहताः तदः कदा द्विजकोऽपि महापाशुपदो स उपोषणसंयुक्तशिवं ध्यात्वा समाश्रितः कारागारे राक्षसस्य वधार्थम् ह्युदिदो भवद हृदि स्थं शङ्करं सोऽपि तं पुपूज विशेषतः शङ्करः क्षुभिदोऽत्यन्तं भीमं हन्तुं समाययौ युद्धं कृत्वा स भीमेन ताडितस्तु पपालः समागत्य मयूरेश्यम् प्रार्थयामास शङ्करः तं पूज्यप्रययौ तत्र जकान भीममुल्बणं स एव भीमनाधस्तु स्थापिदो भूद्विजयपुरा शैवास्तं हर्षसंयुक्ता पुपूजोर्भक्तिभावदः ततः स भीमनाधस्तु मयूरे भक्तिकारणाद समागतो मयूरेशं पूजयामास नित्यदा द्वाराधीशं चकारैव गणेशस्थं महेश्वराः देवागारस्य देवेशमुत्तरे भीमशङ्करं पूजयित्वा मरेशानं सत्तायुक्तो नरो भवत अत्र दिहासमाद्यं यत्कथयामि समासदः दण्डकारण्यदेशस्तु राजा परमधार्मिकः उग्रसेन इदि ख्यात सर्वविद्या विशारदः बलहीनो महीपालो बभूवे वायुदूषितः जडवच्चष्टया हि नः संस्थितो दुःखसंयुतः नानोपायांश्चकारासौ शान्तये वैद्यनायकैः तथापि रोगनिर्मुक्तो न नराधिपः तदो कस्मान् तदोकस्मान्महादैत्यसुखभोक्ता समागतः बलात् सर्वं नरेन्द्रस्य राज्यं जग्राह तत्क्षणाद ततो विभयसंयुक्ता प्रधानास्तं प्रगृह्य वै मयूरेशं समायादा प्रचुर्जयदायकम् गणेशैः क्षेत्रसंस्थैश्च कथितम् द्वारसम्भवम् माहात्म्यम् तच्च ते श्रुत्वा हर्षयुक्ता बभूविरे नृपम् गृह्यप्रधानास्ते देवागारस्य चोत्तरे द्वारयात्राम् विधानेन चक्रुः परमभकृदः तदोरोगविहीनस्तु राजा सत्तायुधो भवद गणेशं पूज्य सैन्येन युधस्वनगरं ययौ देवं गणेशं स्मृत्वा युधं भीमेशेन भूमिपः युयुधे दैत्येन शस्त्रास्त्रैर्विविधैर्बलाद तदो दैत्यसमक्रुद्धो मल्लयुद्धायत्तं ययौ राजा तं योधयामास स्मृत्वा विघ्नेश्वरं हृदि दैवी सत्ता समायादा राज्ञो देहे तयामरह। क्षीणचक्रिः पपालैव सुखभोक्रा महाबलः चकारनगरं गत्वा सतदो तदो राज्यमुत्तमं भीमेशसंयुधं नित्यमभजद्गणनायकम् अन्धे कैलासगो भूत्वा बुभुजे पुनर्मयूरक्षेत्रे च ब्राह्मणः स बभूवः गाणे शानेन मार्गेणा भजत्तं गणनायकम् अन्ते स्वानन्दकसोऽपि तल्लीनः प्रबभूवः एवं नानाविधा देवासिद्धिं प्राप्ता विशेषतः देवा यात्रया नात्र संशयः अधुना पूर्णयात्राया देवालयस्य देवपाः माहात्म्यं कथयामिह सङ्क्षेपेण पुराभवं भवं द्राविडे शूद्रजाभिस्तो बभूव विषयप्रियः नाम्ना कदा स्वकार्यार्थं मार्गसंस्थो बभूवः तत्रा शुचिस्वभावस्तं राक्षसप्रविवेशतं तेना सुरस्वभावस्तशूद्रो बभूव सर्वदा तदः पिशाच्च खै दृदो हृदिविशेषतः प्रविश्य चेष्टया हीनकृदः पैशाचको भवत् तदो वीर्यविहीनं तं नानाजोगैः प्रपीडितं यदादृशं गृहीत्वादु सुहृदो दुःखमाययुः विदुषा ब्राह्मणेनापि सुहृदश्चोपदेशिताः मयूरेशं समागम्य यात्रां चक्रुर्यथा विधि सम्पूर्णां चतुर्द्वारसमन्विताम् तत्र सर्पेण दष्टाश्च यात्रां चक्रुस्तथापि ते नग्नभैरवदेवस्य पूजने न पिशाचकाः तं त्यक्त्वा प्रययुः सर्वे भयभीदासुरेश्वराः नीलकण्ठं समालोक्य विषबाधा पपालः कृत्तिवासमालोक्य राक्षसप्रययौ तदः भीमेशम् पूजयित्वा तु वीर्ययुक्तो बभूवः तदो विघ्नेशमापूज्य स्वगृहं स जगामः विस्मितो मानसेऽत्यन्तं सस्मारगणनायकम् चतुर्द्वारयुधं तं सो भजद्भावसमन्वितः अन्ते शैवे समागम्य लोके भोगान् मनोगदान् भुजे स पुनः क्षेत्रे मयूरे क्षत्रियो भवद क्षेत्रसंन्याससंयुक्तो भज गणनायकम् स्वानन्दे ब्रह्म ब्रह्मभूदस्स बभुवान्दे सुरेश्वराः एवं नानाविधा लोका ययुस्सिद्धिं महेश्वराः देवागारस्य तत्रैव ब्रूयां कदिदु यात्रया देवालयस्य यात्राया माहात्म्यं व्यशृणोति चेद पठेद्वा तस्य विघ्नेशप्रसन्नो भवति प्रभुः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म महापुराणे षष्ठे खण्डे विकटचरिते देवागारद्वारयात्रामाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः ओम्